गत्वा च शिबिरद्वारि दुर्दृशं तत्र राक्षसं घोररूपमपश्यत्स दिवमावृत्यधिष्ठितं तेन व्याघातमस्त्राणां क्रियमाणमवेक्ष्य च द्रौणिर्यत्र विरूपाक्षम् रुद्रमाराध्यसत्वरः प्रसुप्तान् निशि विश्वस्तान् धृष्टद्युम्न पुरोगमान् पञ्चालान् सपरिवारान् द्रौपदेयांश्च सर्वशः कृतवर्मणा च कृपेण च निजघ्निवान् यत्रा बलाश्रयात, मुच्यत पाथ पंचश्रिया महेश्वास शाशन गता पंचालाना यत्र द्रोणसुताध धृष्टद्युम्नस्य सूतेन पाण्डवेषु निवेदितः द्रौपदी पुत्रशोकार्ता पितृभ्रातृवधार्दिता कृतानशनसङ्कल्पा यत्र भर्तृनुपाविशत् द्रौपदीवचनाद्यत्र भीमो भीमपराक्रमः प्रियम् तस्यांश्चिकीर्षन् वै गदामादाय वीर्यवान् अन्वधावत् सुसङ्क्रुद्धो भारद्वाजम् गुरोः सुतम् भीमसेनभयाद् यत्र दैवेनाभिप्रचोदितः अपाण्डवायेतिरुषा द्रौणिरस्त्रमवासृजत् मैवमित्यब्रवीत्कृष्णः शमयंस्तस्य तद्वचः यत् स्त्रमस्त्रेण च तत् शमयामासफाल्गुनः द्रौणेश्च द्रोहबुद्धित्वम् वीक्ष्य पापात्मनस्तदा द्रौणिद्वैपायनादीनां शापाश्चान्योन्यकारिताः मणिं तथा समादाय द्रोणपुत्रान्महारथात् पाण्डवाः प्रददुर्हृष्टा द्रौपद्यैजितकाशिनः एतद्वै दशमं पर्व सौप्तिकं समुदाहृतम् अष्टादशास्मिन्नध्याया पर्वण्युक्तामहात्मना श्लोकानां कथितान्यत्र शतान्यष्टौ प्रसङ्ख्यया श्लोकाश्च सप्ततिः प्रोक्ता मुनिना ब्रह्मवादिना सौप्तिकैशीके सम्बद्धे पर्वण्युक्तमतेजसा अत ऊर्ध्वमिदं प्राहुः स्त्रीपर्वकरुणोदयम् पुत्रशोकाभिसन्तप्तः प्रज्ञा चक्षुर्नराधिपः कृष्णोपनीतां यत्रासा वायसीं प्रतिमां दृढां भीमसेनद्रोह बुद्धिर्धृतराष्ट्रो बभञ्जः तथा शोकाभितप्तस्य धृतराष्ट्रस्य धीमतः संसारगहनं बुद्ध्या हेतुभिर्मोक्षदर्शनैः विदुरेण च यत्रास्य राज्ञ आश्वासनं कृतम् धृतराष्ट्रस्य चात्रैव कौरवायोधनं तथा सान्तः पुरस्य गमनं शोकार्तस्य प्रकीर्तितं विलापो वीरपत्नीनां यत्राति स्मृतः क्रोधावेषः प्रमोहश्च गान्धारीधृतराष्ट्रयोः यत्र तान् क्ष ः शूरान् सङ्ग्रामेष्वनिवर्तिनः पुत्रान् भ्रातॄन् पितृंश्चैव ददृशुर्निहतान् रणे पुत्रपौत्रवधार्तायास्तथात्रैव प्रकीर्तिता कृष्णेन क्रोधो पशमनक्रिया यत्र गाधार्षा कृष्णन क्रोधोपशमन क्रिया यहांधता शरीर दाहया स्र मणि चार्धे रादकदन के गूोत्त्पन्न सेख्यान चाख्यानम से पृथयात्मन